प्रजा असृजदता सृष्टा इन्द्राग्ने अपागो अथागुं सौजायत् प्रजापतिरिन्द्राग्ने प्रजा अपाकक्षतामि दशजयतमे इन्द्राग्नमेकादशकपालमवश्यत्तन्निरवभक्तावस्मै प्रजा प्रासार्थयतामिन्द्रा तस्य प्रजामपगोहतो जोलं प्रजादेशं प्रजान्न विन्दत ऐं राज्ञमेकादशकपालं निर्वपेत् प्रजाकामयीं राज्ञे नैनोपथापतितादेवस्मै प्रजां प्रजा विन्दते प्रजामयीं राज्ञमेकादशकपालं निर्वपेत् सहसा न tagan the भ्यामेवेन्द द्विजं वेत्जं भ्रातृजस्य पाप्मनाभ्यातरु पवादे तस्मादिं द्विजं वेलज ग्रामदे यः सङ्ग्राममुपप्रजात्ययेन्द्राज्ञकादशगवालं निर्मवेत् याधितम् सङ्ग्रामं विवादेशेण वीर्येण धयत्रीं राज्ञमेकादशगवारण्यर्वपेत् सङ्ग्रामं धित्रें राज्ञी एव स्वेन भागे स्मिन् इन्द्रियं वेरुजं धो नेन्द्रियेण वेरुयवारे तस्मादिन्द्रियं वेरुजं क्रामदि यजयति जनदामेकादशकमालं निर्पमेत् जनदामेश्यङ्ग्राग्स्वेन भागे जैनो बुधापदि तावैवास्मिन् यं वेर्यं धन्तर्येण जनतामेति कोष्णञ्चमनुर्पेत् कोषापालिन्द्रियस्य वेर्यस्यानुपतानाभूषणमेव स्वति स दैवास्मानिन्द्रियं वेल्यमनुप्रयच्छति क्षैत्रपत्यं चरं निर्वपेत् जनतामागत्येयं वै क्षेत्रस्य प्रतिरस्यामेव प्रतिष्ठत्यै राज्ञमेकादशकपालमुपरिष्ठा निर्वहेदस्यामेव प्रतिष्ठायेन्द्रियम् वेद्यमुपरिष्टादात्मन् धत्ते भग्नदे सकृते पुरोडाशमष्टागपालम् निर्वहे ज्योदलशपोर्णमासजास्याम् वा वोर्णमासीं वादिपादयेत्पथो वा देशोपसेन जोदलशोर्ण वास्याम्बावनमासेऽम्बाधिपादयत्यग्निमेव खड्वां दक्षिणामहे समृद्ध्यामश्चागपात्नमिवसयदग्निमेव यज्ञस्वेन भागधे देनापथावति स देवैनं वृतमानं भजति व्रजो भवजज्ञे रक्षो पुरोडाचमष्टाकपालं निर्वपेन्दगुं रक्षागुं ससचैलं नज्ञमेव रक्षोह नज्ञस्वेन भागधे देनापथापति स देवस्मात् लक्षाणि वहन्दिनिशिता यान् निर्वपे निशिता जागुं राजाक्षोगाक्ये भवतो रक्षसा विस्तृत्या अग्न्यजे रुद्रवते पुरोडाशमष्टागपालं नर्ममे अभिचरं नेशा वा अस्य घोरातनो यद्माजे वै न मामृष्ठात्रिमाच्छत्यग्नजय सुरभिमते पुरोडाशमष्टागपालं नर्मे यस्य गावो वा पुरुषा दैवास्मि भैषजं करोति सुरभिमते गन्धस्यामपदे गुरोगवालं संग्रामे संयत्ते जगजं सङ्ग्रामोऽवालेशदेतानुच्छ्रणिरुपापरान् पञ्च श्रमेयं ते पुरुषाभुदर्श्ययतमाले पुरोडाशमष्टागपालं नैनगं शमयभि मेजतेभिवाले च रेखस्य गृहान् दहत्यग्नरेक्षामवले पुरोडाशमष्टागपालम् नर्ववेद्ंशमयतिनास्यापरम् गृहान्तहते अग्नरे कामाय पुरोडाशमष्टागपालम् नर्ववेद्यङ्कामो नापनमे लग्निमेव काम ेनोपधाम सदैवै न समर्थयत्यङ्कामो नग्नरे जिष्ठाय मो नाशमष्टाकमालग्निर्मे क्षेत्रे मासजातेषु वाग्निमेव जविष्ठग्निस्वेन भागधे देनोपधावेनैवेन्द्रियं वीर्यं भ्रादरुजस्य युव देव पाप्मनां भ्रादरुजेन जयदेन ुष्मदेशमस्त्रागपालं नेन्द्यः कामलेन सर्वमायुरयामि त्यग्मेवयुष्मन्दज्ञस्वेन भागते जैनापधाप सदेवा स्मन्दायन् दधाति सर्वमायुरे त्यज्ञदे ग्निमेव जातवेन सन्दस्वेन भागे दे नैनम्भोदिङ्गमयति भवद्देवाग्नदे रुक्मदेशमस्तागमा स्वेन भागधे जेनोपधावशदेवास्मिन् भुचन्दधा दिनोषत देवाग्निजय तेजस्वदे पुरोडाशमष्ट्राकपालण्डे तेजस्वामोऽग्निमेव तेजस्वं दज्ञस्वेन भागधे देनोपधावशदेवास्मिन् तेजोधा दि तेजस्वेव भवद्वग्ने साहं जाय पुरोडाशमष्टाकपालण्डले श्रीक्षमाणोऽग्निमेव साहं यज्ञस्वेन भागधे देनोप ैव सहदेन तुक्षते अग्नलेऽन्नमजय प्रोडाशमष्टागपालम् नृपवेद्यः कामजेतान्नवान् श्यामिज्ञमेवान्नवन् यज्ञस्वनभागे जय नामदि स जयै नवन्नमन्तं गलोत्तन्नवानेव भवजज्ञेऽन्नादाच यः कामलेदान्नादस्यामित्यग्निमेवान्नादज्ञस्वेन भागधय देनोपधापति स देवै न मन्नादं करोत्यं नादेव भवत्यज्ञदेपदेव रोडाशमष्टागमाशन्नपमेत्यः कामलेदान्नपतिस्यामित्यग्निमेवान्नपतिज्ञस्वेन भागधय देनोपधापति स देवै नमन्नपतिं करोत्यन्नपतिरेव भवत्यज्ञदे पमानाद नुभवेदग्नदेवा भगा जाग्नदे सुमया विगदग्नदे पवमानाले जन्मवदे प्राणमेव स्मिन्दैम यथा विगदग्नदैवा भगा जवाचमेवा स्मिङ्गै धिगदग्नदेशुदवानुरेवास्मिन् तेन दधा त्रिलगदेताभवति वेनिन्द्रायरुणे पुरोणाशमेकादुषकपालं हृजा कामान्यवास्मै प्रजाम्बनयः प्रयच्छामरेणे ष्टागपामरेत्यग् मन्दं दे करो देवग्देवालसदेवष्टागवाधं नर्म यत्सङ्ग्रामे न यद्देवाजं वा एषे संग्रामं जगेषः खलु वै ृङ् निर्दिष्टभागो वरे तज रो निर्दिष्टभागोण्यस्तौ सम्भवन्तौ यजमानमधिसम्भवदस्सरेश्वरमादग् नैवमाच्छमानो गपालं नर्मवेद्यस्याग्निरुद्धृतो हृजयज्ञहोत्र उद्वादेतपरेव्यानोद्धृत्य इत्याहस्तथा नकारबुद्धृगैकमपरोधृजेते वृक्षाणानि संनिधानमन्थे तप्थमञ्जज्ञे अन्यस्वाद्यो नैरथिजातवेदाः अकारतृजा दृष्टुभा जगद्या देवेभ्यो हव्यं वहनुवा ज्योमेशवावसोहाग्निरित्याहृज्योतिष्वास्य मदापतितमिगजग्नरे ज्योतिष्मदेगदेवास्य ज्योतिष्मदापतितं तदेवापरुन्धे वैश्वानलं द्वादशकपालं नर्मपे द्वारुणं चरुन् दधि ग्राणे वर्णजं हदेवारुणेनैवैनं वरुणपाशान्मञ्चदिदधिक्राविण्णा पुनादिहिरण्यं दक्षिणा पवित्रं वैधिरण्यं पुनात्येवेन माध्यमस्यान्नं भवत्य संवत्सरो वा देतस्यान्तो योनिं भुजादेव शूनान्नन्दहम् भुजादेशन् भुजान्नबिन्दते यद्वये स्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वयेष्वाहर संवत्सरमेव भागधे जय न शमयति सोऽस्मै शान्तस्माद्योनेः जाम्बजनैवैनं वरुणवासान्मञ्जलिणा पुरादहिरण्यं दक्षिणा पवित्रम्बै हिरण्यं पुनात्येवैनं विन्दले प्रजाम्बैश्वानलम्बादशकपालण्डले पुत्रे जाते कपालो भव निगालत्रियैवैनं ब्रह्मवर्चसेन पुनादिजन्नवकपालस्त्रिवदैवास्मिन् तेजोदधाधिगो विराजैवास्मिन्नन्ना द्यं दधा द्विगदेकादशकपालस्तुष्टुभैवास्मिन् इन्द्रिगन्धथा दिगद्वादशकपालौ जगत्यैवास्मिन् वशोन्दधा दिगस्मिन् जातजेतामिष्ट्यं नूतदेव ते जष्ट्यं नाद इन्द्रियाभिन् भवत्यपवालेश सुवर्गाल्लोकाच्छद्यते लोदशपोर्णवासजाते सन्नमा वास्याम्बा देवै स्वादरं वा दुषकपालं नर्ममे नमाभा स्यां वासेम् वाधिपाद्यसंवत्सरो वा अग्निर्वैश्वादरः संवत्सरमेवायसौ संवत्सरमेवा स्म उपदथा निर्गस्य लोकस्य समष्ट्या असौ देवता देवान्वारभ्य सुवर्गं लोकमे दिवे रहा ्राह्णायः पुरान्नवष्टागपालं नेष्वालं वादश वासयेष्य ने अष्टागपालो भवत्यष्टाक्षदा गायत्रे गायत्रो जावानेवाज्ञस्तस्मात्सङ्करोत्यसौजसा जनयते सङ्करोति तादृगेव तद्वादशकपालो वै म्भ संब छलः खलु वाग्नेयोवादेवैणै योगमदत्याद्य पश्यान्नं वैश्वाधरम्बादशकपालं निरमन्मारुदगं सप्तकपालं ग्रामकामाहवीदेवैश्व धिश्रयधिकारि हवत्ये मारुतं वा भवत्यै द्वादश कपालो वै स्वाधरो भवति द्वादश मासात्सरेणैवस्मै स जाता विश्वामयति मारुतो भवति मरुतो मयि देवानां विषो सप्तकपालो भवति सप्तगणा वै मरुतोस्मै स जादानवरुन्धे नोक्ष्यमान आसादगति स्वानुवमानम् करोति आदित्यं चलं नर्पमेत् संग्राममुपप्रजास्य निजं वा अदितिरस्यामेव प्रजतिष्ठन् दिवेश्वा नलं वा दशकपालं नर्मवेदायतनं गत्वा संवत् खलो वा अग्निर्वैरेश्वा नरसंवत्सरः खलु वै देवानामायतनवेदस्माद्वा आयतनाद्देवा असुरानजनयद्वयेश्वा नलं वा दशकपालं दे ौ सङ्ग्राममेतस्मिन् वा रेतौ प्रजातेजो विद्विषाणजोरन्नमत्यैश्वानरं वा दशगपाघं निर्वपैन्विद्विषाणजोरन्न संवत्सरो वा अग्निर्वैरेश्वा नरस्संवत्सरस्वरितमेवात्तिनास्मिन् मृजाते संवत्सराजवारेतौ सममातेजौ सममातेतजोरुजहपूर्वोभिदृष्यधिकं वरुणो गवानं समवानयोपूर्वह्यसंवत्सरो वाग्निर्मयेशा नरसंवत्सरमेव वा निर्वरुणं वरस्त्रादभिह्यग्नैनं वरुणो व्यं वा देशप्रतिगृह्णाजोऽ वैश्वाधरं वा दशगवा रं जगवृतिश्च संवत्सरो वा मात्रामात्मा दिनभयादप्रति गृह्णात्यश्वं वा पुरुषं वा वेश्वानं वा दशगवा रं नर्म वेदुभया तत्प्रतिगिश्च संवत्सरो वा धरः संवत् सरस्वति तमेवादिनात्मनो मात्रामाप्नोति वैश्वा धनं द्वादशगवाग्नर्ववेत् दाखल वै संवत्सरं जनदायाच्चो भवति यद्भैश्वाधरं गर्भपति संवत्सरसामेव प्रत्यस्मै कुजा भवन्त यो वै संवत्सरं विरुत्यप्रदक्षानो वै स भवत्येतमेव वै स्वोत्तमाङ्गा मा चेत्ताम् भ्रातरुयाजप्रहिणयाङ्गलजमेवास्मै प्रहिणोति हैन्द्रं चरं गर्वपेत् पशुकामहैन्द्रा वै वशवरीन्द्रमेव स्वेन सदेवास्मानिन्द्रियं विशुन्वयच्छपदीन्द्राय धर्मपदेवासमेकादशगवारं न सगामा ब्रह्मवर्जसं वै घर्म इन्द्रमेव घर्मवन्द्यस्मेन भारते धेनोपधामदि सदेवस्मिन् ब्रह्मवर्तसं दधादे ब्रह्मवर्जस्तेव भवतीन्द्रायार्कवदे पुरोडासुमेकादश गवान वेदन्नकामोऽर्गो वै देवानामन्नमिन्द्रमेवार्कवं भस्वेनोपधापदिशदेवास्मा अन्नन्द्रेच्छत्यन्नादेव भवतीन्द्राज घर्मवदेशमेकादशगपालं नर्ववेदिन्द्रायैन्द्रिदावलिन्द्रायार्कपदे भूतिकामो धर्मपति शिरदेवास्य तेन करो द्विदिन्द्रायेन्द्रियावद आत्मानमेवास्य तेन करो द्विदिन्द्रायार्कपदे भूतदेवानाद्य भवत्येवेन्द्राय दे गम्भोमुचे कुरोडासमेकादश यः पाप्मनाग हे तस्यात्पाप्मा वागं हरिन्द्रमेवागं हृथज्ञस्वेन हा गजेरेनोपधाव सदेवेन वामनोगुं हसमुदीन्द्राय वै मृथाय पुरोणाचमेकादशगपालं नैव वेद्यं मृथोऽप्लवेष्ट्राणि वाधि समिन्द्रमेव वै मृथज्ञस्वेन भागचे सदेव ृथोपहन्तीन्द्रायत्रा त्रे पुरोणा समेकादशकपालं निर्वपेद्बद्धोपापरिदत्तोपेन्द्रमे वत्राज्ञस्तेनभागधे देनोपधापति स देवैनन्द्राय रविन्द्राजार्काश्वमेधवदे गुरोणाशमेकादशकपालं निर्वपेद्यं महायज्ञो नोपलमेधे देवै महायज्ञस्याञ्चे तनुरर्काश्वमेधाविन्द्रमेवार्का आश्वमेथ वन्दक स्वेन भागधे जय ततो महारिज्ञो नोपमे दे नो नो दे मे महारज्ञस्यान् चेतनोर्गाश्वमेधाविन्द्रमे वार्गा आश्वमेथवन्दक् स्वेन भागधे जय नो बुधाव दशदेवास्मान् ततो महारिज्ञं श्यावयत्युपैनं महारिज्ञानवति इन्द्राजान् वृजवेव रोडाशमेकादश गागं नर्वपेन््रामकामयं लमेवान् वृजुव्यस्वेन भागधे धेनोपधाव सदेवास्मै सजाताननुकानुगरो दिग्राम्येव भवतेन्द्राण्य शरं नर्वपेव्यस्तसेना संसिदेव स्यादिन्द्राणी वै सेनारिदेवतेन्द्राणीमेव स्वेन भागधे देनोपधाव सैवास्तसेना हत्तो ल्पजानवेद्गतेन्द्रायनस्वदे पुरोदशगवागं नर्ववेदसङ्ग्रामे संयत्त्रिज वै मन्युनामनसा संग्रामं जयतेन्द्रमेव नैनोपधाम न्द्रियं मन्यं मनो दधार्मस्मादपक्रान्तान्यशेषतमना स्वयं वा मन्यमन्दं मनस्वन्द्रेन भागधेलेनोधा सदैवास्मिन्निन्द्रियं मन्यं मनो दधा दिनहतमना स्वयं वादे पुरोडाशमेकादश यः कामदेमा मे प्रजा सुन्द्रमेव दाता रघुस्वेन भागधे दैनोपधामस्मै दानकामा प्रजा करोति दानकामास्मै प्रजा भवन्तेन्द्राय प्रदात्रे पुरोडा शमेकालिशगपालण्र्भवेद्यस्मै रत्तमिवसन्न प्रतीयतेन्द्रमेव प्रदातारस्मै स्मै कदा भजमेन्द्रायसत्राम्ने पुरोणाशमेकादश कालं नरूप वेदपरुद्धो वा नो ैन्द्राय तैनमरुज्वादीन्द्र वै सदृगेवताफलासेत्सनास्मायलमैन्द्रमेकादश निरपभक्ते नैवास्मिन् वज्रोपे शक्वरे सजनं वज्रोपोद्या अयेन्ध स भवत्सेद्भूतः प्रमाधक्ष्यदेति स प्रजापदिं पुनरुपाधा वत्स प्रजापदिशक्वर्याधिरेव निरमिमे दशान्त्या समाने स्यात्तस्माजतमैन्द्रमेकादशगवानम् निर्वपेदिन्द्रमेव से न पाकेदेनोपधापति सरेवास्मिन्निन्द्रियं दधा दुरेव कुलोऽनुवाक्या भवति शान्त्या अप्रदायषत्वरी राज्या वज्रोभिषकी सलेन वज्रो भूत्या इन्द्रे भवत्येव आज्ञा वैष्णवमेकादशकमालन् नृपमेदभिचरन् सरस्वत्याज्यभागास्याश्चनुवेदा वैष्णवरेकादश भवत्यज्ञः सर्वुर्यज्ञो देवताभिश्चैवैनैर्यज्ञेन चाभितरति सरस्वत्याज्यभागा भवति वाग्मै सरस्वती वाचै वैनमभितरति बाहस्पत्यश्च ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवैनमभितरैप्रति वै परस्तादभिश्च रन्तमधितरं धिद्वे द्वे गुरोनुवाद्येतरुजातधिप्रयज्ञा चेतदैव जयेताभितर्यमाणो देवताभिदेव देवता फलितरति यज्ञेन यज्ञं वाच वाचं ब्रह्मणा ब्रह्म स देवताश्चैवतो न गुरस्य नो वा भवतिनेन महितरं एकादशकपालं नर्वपेज्ञै यज्ञानावनमे लग्नः सर्वा देवता विष्णुर्जज्ञोहाग्निञ्च विष्णुञ्चस्मै न भागे देवस्मै यज्ञं प्रयच्छतमुपै नै यज्ञानमत्याज्ञा वैष्णवं शते शरं निर्वपे चक्षुष्कामा ै चक्षुषा मनुष्या विपश्यन्ति जस्य देवाग्निं चैव विष्णुं चावेवास्मिन् चक्षुभक्तश्चक्षुष्मानेवस्तण्डुलापि समादेवास्मै चक्षुष्प्रजनो वैजश्चक्षुस्तेजसैवा स्मै तेजश्चक्षरिन्द्रियं वैवेजं वृन्द यो गजमानो यजमानस्याध्वरकल्पामृति निर्वपे धातुर्जगजमानेनास्येन्द्रिजम् वीर्यं वृन्दे पुराभाजः प्रवदिकोर् निर्वपेत् यावत्येवतां ध्यालुजस्य लण्डे तामस्य वाचं प्रवदन्ति मन्यावाचोनुप्रवदन्ति तालिं धृयं वेर्यैकजपानेदसत्याग्ना वैष्टमष्टागपालण्डभेत्रादस्य वनस्याकालेश्वरस्वत्राज्यभागा स्यात् भक्तश्चलोल्यदष्टागवालो भवद्दष्टाक्षरागायत्रे गा रत्रं रा दस्य वनं रादस्य ्याज्ञा वैष्णवमेकादशकपालं निर्वपेन् माध्यन्दिनस्य काले सरस्वत्याजस्पत्यश्चर्यदेकादशकपालोकपत्येकादशाक्षरात्रिष्णेष्णं माध्यन्दिनम् माध्यन्दिनमेव द्वादशकपालं नर्मपवेद्यतेजसवनस्याकाले सरस्वत्याज्यभागा स्याद्वार्हस्वत्यश्च द्वादशकपालभवदिग्दशाक्षला जगतेजागतं त्रितेजसवनं तृतेजसवनमेपतेन आत्मादिदेवताभिरेव देवता आकृति चलति यज्ञेन यज्ञं वाचा ब्रह्मणा कगपालैरेव सन्दायस्यात्नोतिपरोडाशैः समनानि नैत्रामरुणमेकगपालम् का निर्ववेद्वशाले काले नैवासौ धादृजस्य वशानो बन्ध्याससो देवैषैतस्यैककपालो भवले स्वसुमर्हत्याप्तुम् असावादित्यो नरोच तस्मै देवायश्चित्यमेच्छं तस्मादेतगं सोमारौ द्वं चरण्यरभवन्ते नैवास्मिन् रुचमदसर्यो ब्रह्मवर्जसकामस्यान्तस्मादेतगं सोमारौ द्वञ्जरण्यवे सोमं चैवस्वेनवास्मिन् ब्रह्मवर्जसम्भतो ब्रह्मवर्जस्येव भव ो वै दृश्यसोर्णमासेव समवरुन् ब्रह्मवर्चतश्चेत्यमाज्यं भवत्याज्यं प्रोक्षणमाज्यमार्जयं जयदेवाचर्वं करोति ब्रह्मवर्चसंग्रह स्मै करो भविष्यामेति सोमा पौष्णं चरं नेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशभस्व दैवास्मै देवतया पशुभिश्चर्मा भवति सोमा रौद्रं शरण् कामः सोमो वैरदोध अग्नः प्रजानाः मृदनयिता सोमलेवास्मेर दोध्याज्ञः प्रजां गृजनयलिमिन्दर ग्निस्वायायैवैनं देवता निष्क्रेयरुद्राजापि तथादिताजगामार्च्छति सोमारोग्रञ्च रङ्गरुपवेद्यो गामयापि सोमं वा देतस्य रसौ गच्छत्यज्ञो गामयति सोमा देवासरसं निष्क्रेणात्यग्नेश्वरेणमुदयजेता सम्भवजेव सोमा रुद्रजोरुपादेतग्रसितगुं होदा निष्किसरेश्वर झर्व अनण्वान् वन्धर होधा बन्धने वन्ध्यमात्माल सोमा रौद्रञ्जरणेद्यः कामलदस्मे स्मागतृञ्जनलयि वे जम्बलमधन्यादधन्नाद्ध स्याः नेवास्मायतनेभ्यादृजन ऐन्द्रमेकादशकपालं नृपे मारुतको सप्तकपालङ्ग्राम इन्द्रं चैव मरुतश्च स्मै न भागे लेणो वृथावदितस्मै स दातान् प्रगच्छन्ति ग्रहाणेव भवत्याः मनील ऐन्द्रमधिगति गालिभवत्ये मारुतं सप्तकपाल मारुतोभमति सप्तगनामे मरुतोगणदेवास्मै स जाता नवरुन्धयत्समानासादगति विषमेवास्मानुपत्मानं करोतामेव कामय रक्षत्राय च विषयच समदं दध्यामित्यैन्द्रस्याजन् ब्रोजादिन्द्राजानो ब्रूहे काश्राजब्रोजान् मरुतो जचयति मारुदस्या वज्यन् ब्रोजान् मरुद्यो ब्रूहे काश्राजब्रोजादिन्द्रञ्जयस्व जय वैभ्यो भागय समदं दधा ष्ठं देवतामेव सर्ववेद्यः कामदे चकल्पे गण्डिति यथादे पदमापदाय यथादे पदङ्गदे देवैन्द्रमेकादशकपालं नृपवेद्वैश्वदेवं तादृशकपालं ग्रामकाम इन्द्रं चैव विश्वायिश्च देवान् शैनफाकथय नोपथापदितवास्मै सजातान् प्रगच्छन् दै ग्राम्येव भवत्यैन्द्रस्यापदायश्व ्यावद्देन सेन्द्रस्योपरिष्टानिन्द्रिजेणैवास्मा भजदस्स जातान् वै गृह्णात्युपाधार्यपूर्वजम्बासौ लक्षिणा स जातानामुपहेद्यै वृष्णै दुग्धे वैजङ्गवं शरं नो ग्रामकामः वै पयसौ मरुतो जातास्तृष्णे त्रिजङ्गवामारुदाः मुखावृतरे वा स्मेषजातान् प्रगच्छन्ति ग्राम्येव भवति प्रियपदीयाज्यानुभाग्ये भवतः प्रियमेवैरसमानानाङ्गलो युद्धिपदा पुरोऽनुवाक्या भवति द्विपदेववरुन्धे चतुष्पदा याज्या चतुष्पदेव पशोऽनवरुन्धे देवासुरासंगन्ताः सन्ते देवान्विषोऽप्रियाः सन्ते राजातिष्ठमानाश्चतुर्था विक्रामन्न वसुभिः सोम ऋन्द्रमरुद्धर्वरुणः वित्ते सेन्द्रः प्रजापतिमुपाधा बद्धमेतया ्यान्यायाजय नग्नजय वुसुमते पुरोडाशमष्टागपानं निर्ममेत् सोमाय रुद्रपदे चलमिन्द्राज मयुत्पदे पुरोडाशमेकादशित्रपदे चलमिन्द्रमे वसिष्ठः समानानाम् भवति सवेदपुत्रः समातरगं सोलर्भुवत्स भुवत् पुनर्मघः सञ्जामो नन्तरिक्षकम् स स्वो अभवत् सृत्यम् चित्रम् सप्रसाम्नेन संयताः बृहत्तपन्थभानुनाः वेदस्परिहस्ते तथा न्या ग्रूणिर्भवन् वेनाकुम् सत्रा चक्राणामृतानि विश्वाः हिरण्यपाणिमोचितारमुपः परे दिवेक्षयस्य देवभूदे रजाधिजा वामभाजस्याम वलिधापर्वदानाम् छिद्रम् विफलिपृथिमिप्रिमन्धानि सोमास स्वामि चारिणि प्रतिष्टो भन्तः प्रयावाजन्नहेशन्तम् पेरुमस्यख्या स रजो मानरिष्येश्व पीतः अयः सोमोऽन्यथा यस्मे तस्मा इन्द्रम् मृदिरमेऽन्यच्छाहान्तमन्यस्रमलप्रभर्मातुमिश्विच्छे ्रह्मजमदग्निरच्छन्तावस स्थुरन्दर्यते भद्रम् जगुम्भ समाधस्ते मदम् चुष्मयम् च ब्रह्म नरो ब्रह्म कृतः सपर्यन् अर्को बाह्यतुलदे सोपचक्षास्तत्रेदिन्द्रो दशते वृत्सु दुर्या वषक्ते विष्णवासः तृणोमितम् मे दुषस्वशिविष्टहव्यम् अर्धम् दृत्वा सुष्ठुतयोगिनो मे योऽयम् बादस्वस्तिभिः सदा विद्वान् दन्तागृणाभिगे किमित्ते विष्णो परिचक्ष्यम् भोत्रयद्वपक्षे शिवविष्टो अस्मि मा वर्पोऽस्मदपगोहले तज्जन्यरूपदासुषैतजम् वीरवन्तम् परेण सम्शीहिणः सोणुमदः अग्ने सति नो दासहस्रिणो दुरोणवा वा अपापृथिद्या वापृथिवे ब्रह्मणा विद्युः अन्यर्धा द्रविणम् वेलपेशा अग्निदर्शय्यः सहस्रा सनोति अन्यमातदानान्यर्थामानि विभृता पुरुत्रा मानामर्थे रातो भरा ोररे वा सुरण्यम् धर्तेरुक्मो न रोचतस्वभावः उभे सुश्चन्द्रसर्विषो दर्वेश्रेणेष आसने उतो न उत्पुकोर्या बुद्धेषु शमसस्पधनिषव्यस्तो दृग्धाभर वायशतगुहरेण ्वागम् समध्या नियुद्भिर्वायविष्णजेतुरोणे निनो रजनो सुभोदसंयुवेहनिवेदमद्वमश्रियम् च नाथः हेमते समादन्द्रे सन्तु विविवाजाः क्षुमन् दोजाभर्मदेवा हेमागम्यग्तस्तोता स्यात्त्वावतो मघो नः प्रेजु हरिव श्रुतस्य Oh